श्रीहरये नमः अतष्टमोऽध्यायः श्रीशुक उवाच पीते घरे वृषाङ्गेण प्रीतास्ते मरधानवाः मम तुस्तरसा सिन्धुं हविर्धानि ततोऽभवत् तामग्निहोत्रीं ऋषयो जगृहुर्ब्रह्मवादिनः यज्ञस्य देवयानस्य मेध्याय कविशे तथ उच्चैश्रवा नाम हयो भूचन्द्रपाण्डुरः तस्मिन् बलिस्पृहां चक्रे रेन्द्र ईश्वरशिक्षया तथ कौस्तु भाग्यं मभूत्रत्नं पद्मरागो महो धतेः तस्मिन् हरिस्पृहां चक्रे वक्षोऽलङ्करणे मणो ततो भवत्पारिजातसुरलोकविभूषणं पूरयत्यर्तिनो योऽर्थे शश्वत् भुवि यथा भवान् ततश्च अप्सरसो जाता निष्ककण्ठय सुवासहा प्रमण्ड्यै स्वर्गिणां वलोकनैः ततश्च आविरभूत् साक्षात् श्रीरमा भगवत्परां रञ्जयन्ती दिश कान्त्या विद्युत्सौधामनीयत तस्यां ता, चक्रुस्पृहां सर्वे ससुरासुरमानवाः रूपौधार्यवयो वर्ण महिमा क्षिप्तचेतसः तस्या आसनमानिन्ये महेन्द्रो मघधद्भुतं मूर्तिमध्य सरित् श्रेष्ठा हेम आभिषेचनिका भूमि आहरत् सकलौषधीहे गावपञ्च वसन्तो मधुमाधवौ वृषः अभिषेकं यधा विति जगुः ट्यस्य नन्द्रुतोर्जगुः मे कामृदङ्गपणवमुरजानक गोमुखान् व्यनादयन् शङ्ख वीणो वीणास्तु मुलनिस्वनान् ततोऽभिशिक्षिसुर्देवीं श्रियं पद्मकरां सतीं दिगिभापूर्णकलशै सोक्तवाक्ये द्विजेरितैः मुत्र पीतकौसेयवासी समुपाहरत् वरुणस्रजं वै जयन्ते मधुना विश्वकर्मा प्रजापतिः हारं सरस्वती पद्मम् अजो नागाश्च कुण्डले ततः कृतस्वस्त्ययरोद्बलस्रजं नदद्विरेपां परिगृह्य पाणिना सचालवक्त्रं सुखपोलगुण्ट ीडगासं दतति सुशोभनं स्तनद्वयं चातिकृसोधरी समं निरन्तरं चन्दन कुङ्कुमुक्षितं ततस्तदो नूपुरवल्गुसिञ्जितैर्विसर्पती हेमलतेवसा बभो विलोकयन्ती निरवद्ययमात्मनः पदं ध्रुवं शाव्यभिचारि सद्गुणं गन्धर्वयक्षासुरसिद्धशारणत्रैभि ेयादिशूनान्बविन्दत नूनं तपो यस्य न मन्युनिर्जयो ज्ञानं क्वचिस्तच्च न सङ्गमर्जितं कच्चिन्मकांस्तस्य न कामनिर्जय स ईश्वर किम्बरतो व्यपाश्रयः धर्म क्वचित्तत्र न भूतसौहृदं त्याग क्वचित्तत्र न मुक्तिकारणं वीर्यं न पुंसोस्तजय वेगनिष्कृतं द्वितीयो गुणसङ्गवर्जितः क्वचित् शिरायुर्न हि क्वचित् तदभ्यस्तितवेद्यमायुषः यत्रो भयं कुत्र च सोप्य मङ्गलस्तु मङ्गलः एवं विमृश्य अव्यभिचारि सद्गुणैर्वरं निजैकाश्रय धया गुणाश्रयं वव्रेवरं सर्वगुणैरपेक्षितं रमामु गुतं निरपेक्ष देसवुसते नवकञ्जमालां माध्यन्मधुव्रतवरुतगिरोपुष्टां तस्थौ निदाय निकटे तधुरस्वधामा सव्रीडहासविकसन्नयने तस्या श्रियस्त्रिजगतो जनगो जनन्या वक्षो निवासम् अकरोत्परं विभूतेः प्रजासकरुणेन निरीक्षणेन यत्र स्थितै त्रिलोकान् सङ्गतुर्यमृदङ्गानां बाधित्राणां पृथुस्वनः देवानुगानां सस्त्रीणां नृत्यतां गायतामभूत् ब्रह्म रुद्राङ्गिरो मुख्या सर्वे विश्वश्रुजो विभुम् ईडिरे विविधैर्मन्त्रैः स्थल्लिङ्गैः पुष्पवर्षिणः श्रिया विलोकिता देवा स शिलाधिगुणसम्पन्ना लेभिरे निर्वृतिं परां निःसत्वा लोलुपराजन्निरत्योगा गतत्रपाहा यथा च उपेक्षिता लक्ष्म्या बभूवोर्दैत्यधानवाः अत सीत्वारुणी देवी कन्याकमलोचना असुरा जगृहुस्ताम्बै हरे अनुमतेन ते अतो दतेर्मध्यमानात् काश्यपै दीर्घपीबरधोर्दण्डकम्भुग्रीवोरुनेक्षणः श्यामलस्तरुणश्रग् सर्वाभरणभूषितः पीतवासो मघोरस्कस्तुं सृष्टमणिकुण्डलः भगवतः साक्षात् भवः धन्वन्तरिति ख्यात आयुर्वेदधृक् तमलोक्य आसुरा सर्वे कलशं च अमृताभृतं लिप्सन्त सर्ववस्तूनि कलसं तरसाहरन् नीयमाने सुरैस्तस्मिन् कलशे मृतभाजने। विष्णमनसो देवा हरिं शरणमाययुः इति दैतन्यमालोक्य भगवान भृद्य मा किद्यतमितोऽर्थं वत् सदायिष्ये स्वभायया मिथक् कलीरभूतेषां दगर्ते दर्श चेतसा अघं प्रभो देवास्वं भागं अर्हन्ति ये तुल्याया सहेतवः सत्प्रयागै वैस्तस्मिन् येष धर्मः सनातनः इति स्वान् प्रत्यवेश धन् वै दैयो जातमत्सराः दुर्बला प्रबलान् राजन् गृहीतकलशान्मुहुः एतस्मिन्नन्तरे विष्णो सर्वोपायविधीश्वरः योषिद्रूपम् अनिर्देश्यं धारपरमाद्भुतम् प्रेक्षणीयोत्पलश्यामं सर्वावयवसुन्दरं तामानकर्णाभरणं सुखपोलवुन्नसाननं नवयौवननिर्वृत्तस्तनभारकृतोधरम् मोधानुरक्ताली जङ्गारोद्विग्नलोचनं बिभ्रत् स्वकेशभारेण मालाम्बुत्पुल्लमल्लिकान् सुग्रीवकण्ठाभरणं सुभुजाङ्गतभूषितं विरजम्बरसंवीतनिधम्बद्वीपशोभयान् काञ्चा प्रविलसत्वल्गोक्षलच्चरणनूपुरं सव्रीडस्मितविक्षिप्तब्रो विलासावलोकनैः दैत्ययूतपचेतस्थो कामम् उद्दीपयन्मुहुः इति श्रीमद्भागवते महापुराणे अष्टमस्कन्ते भगवन्मायोपलम्भनं नाम अष्टमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनात्मकराजके जय